पृषदाश्वामरुता॒ पृश्निमातर॒ शुभञ्यावा नो विदथेषु जग्मया अग्निजिह्वामनवसूरचक्षसो विश्वे नो॑ देवा अवसागमन्निहा पृषदाश्वामरुता पृ॒श्निमातर॒ शु॒भञ्यावा॒ नो विदथे शु जग्मया अग्निजिह्वामन॑वः सूरचक्षसो विश्वे देवा अवसागमन्निः पृषदश्वा पृशनिमातरशुभंया वा नो विदथे शु ज॒ग्मया अग्निजिह्वामनवसूरचाक्षसो विश्वे